मार्कण्डेयपुराणम् अध्यायं ट्वेन्टिफोर् जड उवाच कृताकारं महात्मनामधिमं पवनाशिनाम् उपासाञ्चकृ पुत्रौ भूपालतनयस्तथा कथाभिरनुरूपाभिस्समाहात्मा भुजङ्गमः प्रीतिं सञ्चनयामास पुत्रसख्युरुवाच च तव भद्रसुखं ब्रूहि गेहमभ्यागतस्य यद् कर्तव्यमुत्सृजाशङ्गां पितरीव सुतोमयि रचतं वा सुवर्णं वा वस्त्रं वाहनमासनं यद्वाभिमदमत्यर्थं दुर्लभम् तद्वृणुष्व मां कुवलयाश्व उवाच तव प्रसादाद्भगवन् सुवर्णादिगृहे मम पितुरस्ति ममाद्यापि न किञ्चित् कार्यमीदृश्यम् तादेवर्षसहस्राणि शासती मां वसुन्धरां तथैव त्वयि पातालम् न मे याञ्चोन्मुखं मनः ते स्वर्ग्याश्च सुपुण्याश्च येषां पितरिधीवति तृणकोटिसमं वित्तं तारुण्याद्वित्तकोटिषु मित्राणि तुल्यशिष्ठानि तद्वद्देहमनामयं जनिताद्ध्रियदे वित्तं किन्नुनास्ति असत्यार्थे असत्यर्थे नृणां प्रवणं जायते मनः सत्यशेषे कथं याञ्चां मम जिह्वा करिष्यति यैर्नचिन्त्यं धनं किञ्चिन्मम गेहेऽस्ति नास्ति वा पितृ बाहुतरुच्छायां संश्रुता सुखिनो हि ते ये तु बाल्यात्प्रभृत्येव विना पित्रा कुटुम्बिनः ते सुखास्वादविभ्रंशान्मन्ये धात्रैव वञ्चिताः तद्वयं त्वत्प्रसादेन धनरत्नादिसञ्चयान् पितृमुक्तान् प्रयच्छामः कामदो नित्यमर्थिनां तत्सर्वमिह तव मच्चूडामणिना स्पृष्टं यच्छाङ्गस्पर्शमाप्तवान् इत्येवं प्रसृतं प्राह राजसुदं प्रीत्या पुत्रयोरुपकारिणम् नाग उवाच यदिरत्नसुवर्णादिमत्तोऽवाप्तुं न ते मनः यदन्यन्मनसप्रीत्यै तद्ब्रूहित्वं ददाम्यहं कुवलयाश्व उवाच भगवंस्त्वत्प्रसादेन प्रार्थितस्य गृहे मम सर्वमस्तिविशेषेण संप्राप्तं तव दर्शनाद कृत सफलं जीवितं च मे यदङ्गः संश्लेषमिदस्तव देवस्य मानुषः ममोत्तमाङ्गे यदिहास्पदं कृतं तेनैव न किं मया पन्नगेश्वर यदि त्ववश्यं दातव्यो वरो मम यथेप्सितः तत्पुण्यकर्मसंस्कारो हृदयान्मा व्यपयितु मे वाहनं गृहमासनं स्त्रियोन्नपानं पुत्राश्च चारुमाल्यानुलेपनम् एते च विविधा कामा गीतवाद्यादिकञ्चयद् सर्वमेदन् मम मदं फलं पुण्यवनस्पतेः तस्मान्नरेण तन्मुलकार्यो यत्नकृदात्मना कर्तव्यपुण्यशक्तानां न किञ्चिद् भुवि अश्वतर उवाच ष्य तव धर्माश्रिद सत्य फल सर्व धर्म सेदाप्यवश्य मगेहन याधुना यन्मानुषे लोके दुष्प्राप्तं दुष्पत चड उवाच तस्यैतद्वचनं श्रुत्वा स तदा नृपनन्तनः मुखावलोकनञ्चक्रे पन्नगेश्वरपुत्रयोः ततस्तौ प्रणिपत्योभौ राजपुत्रस्य यन्मदं तत्पिदुःसकलं वीरौ कथयामासधुस्फुटं पुत्रावोचतुः तथ्य पत्नी दयिता श्रुव् विपादी अत्यज्दयिता प्रलब्ध दुरात्मना के कृतवरेण दानवे दानवेन गंधर्वराज से सुधार नख्या मदा सा कृतज्ञोऽयं ततस्तादप्रतिज्ञां कृतवानी मां नान्या भार्या भवित्रीति वर्जयित्वा मदालसां द्रष्टुं तां चारुसर्वाङ्गीमयं वीरहृतध्वजः ताद वाञ्छति यद्येतत् क्रियते तत्कृतं भवेत् अश्वर उवाच भूदर्गिनो योगस्तादृश कथ मेद्ना स्व मंबरोदिताड उवाच प्रणिपत भुजंगेशं पुत्रशत्रुजितस्ततः प्रत्युवाच महात्मानं प्रेम लज्जात्समन्वितः मायामयीमप्यधुना मम तादमदालसां यदि दर्शयदे मन्ये परं कृतमनुग्रहम् अश्वतर उवाच तस्मात् पश्येह वत्सत्वं मायाञ्चे द्रष्टुमिच्छसि अनुग्राह्यो भवान् गेहं बालोऽप्यभ्यागदो गुरुः जड उवाच आनयामासनागेन्द्रो गृहगुप्तां मदालसां तेषाम् समोहनार्थाय जजल्प च तदस्फुटं दर्शयामास तदा राजपुत्राय तां शुभां सेयं न वेदिते भार्या राजपुत्रमदालसा जड उवाच स दृष्ट्वा तां तदा तन्वीं तत्क्षणाद्विगदत्रपः प्रियेदितामभिमुखं ययौ वाचमुदीरयन् निवारयामास चदं नागसोश्वतरस्त्वरन् अश्वतर उवाच मायेयं पुत्रमास्प्राक्षीप्रागेव कथितं तव अन्तर्धानमुपैत्याशु माया ततः पपादमेदिन्यां सदु मूर्च्छा परिप्लुतः हा प्रियेदि वदन् शोध चिन्तयामास भामिनीम् अहो स्नेहोऽस्य नृपदेर्ममोपर्यचलं मनः येनायं पादनोरीणां विना शस्त्रेण पातितः माये दि दर्शिता तेन मिथ्या माये दीयस्फुटं वाम्बुतेजसां भूमेराकाशस्य च चेष्टया जड उवाच ततः कुवलयाश्वं तं समाश्वास्य भुजङ्गमः कथयामास तत्सर्वं मृद सञ्जीवनादिकं ततः प्रहृष्टः प्रतिलभ्यकान्तां प्रणम्यनागं तमश्वमारुह्य सञ्चिन्तितमभ्युपेदम् इति श्रीमार्कण्डेयपुराणे मदालसाप्राप्तिर्नाम चतुर्विंशोऽध्यायः ओ